हरि ओम् श्रीसीता सी रामचन्द्राभ्यं नमः अथ श्रीमत् अध्यात्मरामायणे अरण्यकाण्डे नवमत्सर्गः श्रीमहादेव उवाच ततो रामो लक्ष्मणेन जगाम विपिनान्तरम् पुनर्दुःखम् समाश्रित्य सीतान्वेषण तत्परः तत्र दूतसमाकारो राक्षस प्रत्यदृश्यत वक्षस्येव महावक्त्र चक्षुरादि विवर्जितः बाहूयोजनमात्रेण व्यापृतौ तस्य रक्षसः कबंधो नाम धैत्येन्द्र सर्वसत्त्वभिहिक तद्बाहोर्मध्यदेशे तौ चरन्तो रामलक्ष्मणौ ददर्शतुर्महासत्वम् तद्बाहु परिवेशितौ <Sýmne> <Sýmne> रामप्रोवाच विहसम् पश्य लक्ष्मणराक्षसम् शिरपादविहीनोऽयम् यस्य भक्षसि चाननम् बाहुभ्याम् लभ्यते यद्य तत्तद्भक्षम् स्थितो ध्रुवम् अवमप्येतयोर्बाहो मध्ये संकलितो ध्रुवम् गन्तुम् अन्यत्र मार्गो न दृश्यते रघुनन्दन किम् कर्तव्यमितोऽस्माभिः नीम् भक्ष्येत्सनौ लक्ष्मणस्थं वाचेदम् किं विचारेण राघवे आवाम्यैकैकमव्यग्रौ छिन्द्या छिन्द्यावास्य भुजो ध्रुवम् तथेति रामः खड्गेन भुजम् दक्षिणमच्छिन तथैव लक्ष्मणो वामम् चिच्छेद भुजमञ्जसाय तसूति विस्मितो दैत्य कौ युवां सुरपङ्गव मद्बाहुछेदको लोके दिवि देवे चुवाकुतः ततो ब्रुवी धसन्नेव रामो राजीवलोचनः अयोध्याधिपति श्रीमान् राजा दशरथो महान् रामो तस्य पुत्रोऽसु धाता मे सुधी मम भार्या जनकजा सीतात्रैलोक्यसुन्दरी आवां मृगय यायातु तदा केनापि रक्षत नीतां सीतां विचिन्वन्तो चोरकानने बाहुभ्यः वीक्षितावत्र तव प्राण छिन्नौ तव भुजो त्वं कोवा विकट वा कबंधवाच धन्योऽहं यदि रामस्थम् आगत सी मंतिकंधर्वराजोह रूपयन दर्द विचर लोकमखि लोकमखिलं, वरनारी मनोहर तपसा लब्धं, ब्रह्मणो लब अवध्यत रघुत्म अठावक्रम द्रह दृष्ट कदाचीद्रंपुर क्रुद्धसौ आहदुष्ट राक्षसो भवुर्मती अट्ठावन प्रहे वो मेदय परहे चापस्या तपसा द्योतिप्रभे तेतायुगे दाश्री भूत नारायण स्वयं आगमिष्यू चिज्य ते योजनायत तेना चापा विमुक्त भविष्यसि यथा पुरा इति शप्तोऽहमद्राक्षम् राक्षसीं तनुमात्मनः कदाचित् देवराजानम् अभ्याद्रवमहम् दृशा सोऽपि वज्रेण मां राम शिरोदेशेभ्यताडयेत् तदा शिरोगतम् कुक्षिम् पादौ च रघुनन्दन ब्रह्म मृत्युः न भून्मेव वज्रताडनात् मुखभावे कथं जीवेत् इयमित्यमराधिपम् ऊचु सर्वे दयाविष्टा मां क्यास्य वर्जितम् ततो मां प्राह मघव जठरे ते मुखं भवेत् बहुतै योजनायामौ भविष्यतः इतो व्रज इत्युक्तोऽत्र बाहुभ्यां वनगोचराम् भक्षयाम्य धना बाहु खण्डितो मे त्वया न गतः परं मां शभ्रास्ये निक्षिपाग्निन्धनावृते अग्निना दह्यमानोऽहम् त्वया रघुकुलोत्तम पूर्वरूपम् अनुप्राप्य भार्यामार्गं वदामि इत्युक्ते लक्ष्मणे नाशु शभ्रं निर्माय तत्र निक्षिप्य प्रादत् काष्ठै ततो देहात्समुत्थितः गन्धर्पदृशाकार सर्वभरणभूषितः रामं प्रदक्षिणं कृत्वा साष्टाङ्गं प्रणिपत्य च कृताञ्जलि उवाचेदम् भक्ति गद्गदया गिरा गन्धर्व उवाच स्वतुमुत्सते मेद्य मनोरामासि सामनन्तम् मनाद्यन्तम् मनोवाचामगोचरम् सूक्ष्मते रूपमव्यक्तम् देहद्वयविलक्षणम् नृग्रूपमेतरस्तत्सर्वम् दृश्यं जैर्णमनात्मकम् तत् कथं त्वाम् विजानीय व्यतिरिक्तम् मनप्रभो बुद्ध्यात्मा भासयो बुद्ध्यादि साक्षी ब्रह्मैव तस्मिन् निर्विषयेऽखिलम् आरोप्यते ज्ञानवशान् निर्विकारेऽखिलात्मनि हिरण्यगर्वे सूक्ष्मम् देयं स्थूलम् विराट्मदम् भावनाविषयो रामम् सूक्ष्मम् ते ध्यातृमङ्गलम् भूतम् भव्यम् भविष्यत् यत्रेदम् दृश्यते जगत् स्थूलेण्डकोशे देहे ते महदादिभिरावृते सप्तभिः उत्तमगुणैः वै राजो धारणाश्रयः तमेव सर्वकैवल्यं लोकासेव वै स्मृतः पातालं ते पादमूलम् पाणि तव रसातलं ते गुल्फोतु तलातलं मिथीर्यते जनु सुतलं राम तथा अतलम च मही राम जघनमि नभ पूरस्थलोषी ग्रीवा ते मह वदनं वनलोकस्ते तपस्ते शंख देशोको रघुश्रेठ श्यास्ते सदा प्रभो इंद्रदक बाहवस्ते दिश्रुति अश्विनौ नाशके राम वक्त्रं देग्नीदारुदाहृते चक्षुष्टे सविता राम मनश्चन्द्र उदाहृते भूभृङ्गालस्ते बुद्धिस्ते वाक्पतिर्भवेत् रुद्रोङ्काररूपस्ति वाचन्दासि देव्यः यमस्ते दश देशस्थो नक्षत्राणि हासु मोहकरि माया सृष्टि ते पाङ्गमोक्षणम् धर्मपुरस्य अधर्मश्च पृष्ठभाग उदीरतः निमिषोन्मेषणे रात्रि दिवाचैव रघुत्तमः समुद्रा सप्त ते कुक्षि नाद्यो नद्यस्तव प्रभो रोमाणि वृक्षोषधयो रेतो वृष्टि तव प्रभो महिमा न शक्ति से एवं स्थूल व पुष्सवस्थलूपे ते मन धारिय ते न रही अनायासे न मुक्ति सै अत्य नाम स्थूल यस्ते प्रेमरस सरो सरो मैं पुलको भव सदैव मुक्तिः स्याद्राम यदाते स्थूल स्थूलभावकः तदप्यास्ताम् तवैवाहम् एतद्रूपम् विचिन्तये धनुर्बाण धनम् श्यामम् जटावल् कलभूषितम् अपि च वयसं सीताम् विचिन्वन्तम् स लक्ष्मणम् सदा मे स्यान् मानसे रघुनन्दन सर्वज्ञशङ्करः साक्षात् पार्वत्या सहित सदा तद्रूपमेवं सततं ध्यायन्नास्ते अद्भुत्तमः मूर्च्छूणां तदाकाशाम् तारकम् ब्रह्मवाचकम् राम रामेति उपदिशन् उपदिशन् सदा सन्तुष्टमानस अत स्व परमात्मा सुनिश्चितः सर्वे ते मायया मूढा तां न जानन्ति तत्सुतः नमस्ते रामभद्राय वेधसे परमात्मने अयोध्याधिपते तुभ्यं नमसौमित्रिसेवितः त्राहि त्राहि जगन्नाथ मां माया नावृणोतु ते श्रीराम उवाच तुष्टोऽहं देवगन्धर्व भक्त्या स्तुत्या च तेनघ याहि मे परमं स्थानम् योगि गम्यं सनातनम् जपन्ति ये नित्यमनन्तबुद्ध्या भक्त्या त्वदुक्तम् तव मार्गमोक्तम् ते ज्ञानसम्भूत भवं विहाय मां यान्ति नित्यानुभवानुमेयम् इति श्रीमदध्यात्मनामायणे उमामयूरसोमवारे अरण्यकाण्डे नवमः सर्गः